गणेशपुराणम् उपासनाखण्डम् अध्यायं 65 कौण्डिन्य उवाच कस्मिंश्चित्समये देवी सुखासीनं गजाननं नारदो मुनिरभ्यागा दृष्टुं तं बहुवासरैः साष्टाङ्गप्रणिपत्यैनं प्रासनः सार्थकं जनुः यत्पुण्यं निजयैर्जातं दर्शनं ते गजानना इत्युक्त्वा स्वाञ्जलिं बद्ध्वा तस्थौ तत्पुरदो मुनिः धृत्वा करेण तत्पाणिमुपवेश यदासने गजाननो महाभागो महाभागं महामुनिम् नारदो भगवांस्तेन सन्तुष्टो मुनिपुङ्गवः उवाचतं तं आश्चर्यं प्रतिमेस्ति यद् तन्निवेदितुमायादो न त्वा पुनराव्रजे गजानन उवाच किमाश्चर्यं त्वया दृष्टं हृदि किं तेऽभिवर्तते वद सर्वं विशेषेण ततो व्रज निजाश्रमं नारद उवाच मैथिले विषये देव जनको राजसत्तमः अधिमानी वदान्यश्च वेदवेदाङ्गपारगः अन्नदानरथो नित्यं ब्राह्मणान् पूजयत्यसौ नानालङ्कारवासोभिर्दक्षिणाभिरनेकषः दीनान्तकृपणेभ्यश्च बहुद्रव्यं द्रव्यं ददात्यसौ याचकैर्याच्यते यद्यत्तत्तेन प्रदीयते तथापि न व्ययम् यादिद्रव्यम् तस्य महात्मनः गजाननस्य सन्तुष्ट्या द्रव्यम् तत् वर्धते नु किम् इत्याश्चर्यम् अह द्रष्टुम् ब्रह्मज्ञानाभिमानेन उपहासम् ममाकरोत् अहम् च तमुवाच्येद्धं धन्योऽसि नृपसत्तमा तेऽपि भक्त्या यं प्रयच्छति गजाननः स तु गर्वादु वाचेद्धमहमीशो जगत्त्रये अहं दाता जभोक्ता च तथा मत्स्वरूपं विना भुवनत्रये कर्ता च कारणं चाकं करणं मुनिसत्तम नारद उवाच इति तद्वचनं श्रुत्वा क्रोधेनाहं जगादतम् ईश्वराजगदकर्ता नान्यः कश्चन विद्यते त्वं तु धर्ममिमं राजन् दम्भेनैव करोषि दर्शयिष्ये साक्ष्यमस्य स्वल्पकालेन तेन क इत्युक्त्वा तमकं यादस्त्वतन्तिकमिभानन कौण्डिन्य उवाच आकर्ण्यदं मुनेर्वाक्यं पूजयामास तं विभुः अर्घ्यादिभिरलङ्कारैव्यै पुष्पैः स चन्दनैः मुनिराज्ञां प्रगृह्यैव वैकुण्ठे विष्णुमभ्यगाद गजाननोऽपि मिथिलां राजभक्तिं परीक्षितुं कुत्सितं वेषमादाय सर्वज्ञोऽपि समाययौ अनेकक्षतसंयुक्तं स्रवद्रक्रममङ्गलम् मक्षिकानि च यात्रान्तं रदहीनमिवातुरम् गच्छन्तं तादृशं दृष्ट्वा नरा नासानिरोधनं कुर्वन्ति वाससा केचिष्ठीवनं च यथा तथा स्खलन्मूर्च्छन् पदन् गच्छन् अर्भकावलिसंयुध नृपद्वारं समागम्यद्वारपालानुवाच सह राज्ञै निवेद्यदान्दूदा अतिथिं मां समापदं ब्राह्मणं क्षुधितं वृद्धमिच्छा भोजनकाङ्क्षिणं तथा चरण्युर्गत्वादं जनकं नृपम् आनीयदामिधिप्राकदूदा द्रष्टुं दुःखौ दुःखं ते दूदा प्रापया मासु कुचैलमलिनं नृपं ददर्शदूराज्जनकोकम्पन्तं मक्षिकावृतम् असृक्स्रवन्तं वृद्धं तं ब्राह्क्मणं श्रमवारिणम् तर्कयामास जनक ईश्वरो रूपधृङ्नो किं चलितुं समायादो यदि पुण्यं भवेन्मम समाधास्ये मनोह्यस्य भविष्यं नान्यथा भवेद् इत्येवं चिन्तयत्येव जनके नृपसत्तमे प्रवेशितोरपालैर्भ्राक्मणः पर्यदृश्यत ब्राक्मण उवाच चन्द्रां शुधबलां कीर्तिं श्रुत्वा देहं समागतः देहि मे भोजनं राजन् क्षुदितस्य चिराद्भृश्यं मम तृप्तिर्भवेध्याय तावदन्नं प्रदीयताम् तव क्रदुषदम् पुष्ण्यं भविष्यदि नरेश्वर कौण्डिन्य उवाच यदि वाचं निशम्यासौ गृहमध्ये निनायतं सम्पूज्य विधिवचैनं स्वाद्वन्नमुपवेशयद तद्दत्तं पुरतः तस्य बभक्ष तत्क्षणेन सह असङ्ख्यातेषु पात्रेषु पङ्क्तुम् क्षिप्तः सुतन्तुलाः दीयते पुरतस्तस्य यत्सिद्धश्चोदनो भवद सभक्षयदि भक्ष यदि सर्वम् तम् तदऊजे जनो नृपम् राक्षसोऽयं भवेत्प्राह्य किमर्धम् धीयते बहु राक्षसेभ्यप्रदानेन न किञ्चित् पुण्यमाप्यते केजिदूजुस्त्रिभुवने भक्षिदेभ्यस्य भवेद। भवेद् तृप्धिपरमिकराजन्धान्यमस्मै प्रदीयतां तदो धान्यानि सर्वाणि गृहे भूमौ स्थितानि च आनीय चिक्षिपुस्तग्रागदान पुसों द्व रूप से नृप्तिमगमत्धभिसे चुच तदो दूध नृपं प्रोजुर्धान्यम क्वा न लभ्यते य दूधवच्रुवा जनकेध स्ति ते स्वस्तीत्युक्त्वा गमद्विप्रो न दृप्तोऽसौ गृहं गृहं दीयदा मन्नमित्याहते जनास्तं जगुस्तदा सर्वेषां धान्यं सर्वं राज्ञा समाहृदं जग्धं त्वयाखिलं ब्रह्मन् गम्यताम् यत्रते ते रुचिः द्विज उवाच कीर्तिरस्य श्रुता लोकान् न दादाजनकात्परः तृप्तिकामः समायाधो ह्यतप्तोऽहं कथं व्रजे तूष्णीं भूतेषु लोकेषु बभ्रमन् ददर्शः विरोचनात्रि शिरसोर्मन्दिरं द्विजयोर्वरं तन्मध्यं प्राविशत्सो हि गृहस्वामीव सत्तया सर्वोपस्काररहितं धातुपात्रविवर्जितम् इति श्रीगणेशपुराणे उपासनाखण्डे पञ्चषष्टितमोऽध्यायः ओ